अथ चतुर्दशाधिकशततमः सर्गः तमुवाच महाप्राज्ञः सोऽभिवाद्य प्लवङ्गमः महा। रामम् कमलपत्राक्षम् वरम् सर्वधनुष्मता यन्निमित्तोऽयमारम्भः कर्मणाम् यः फलोदयः ताम् सा शोकसमाविष्टा बाष्पर्याकुलेक्षणा मैथिली विजयम् श्रुत्वा द्रष्टुम् त्वामभिकाङ्क्षति पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया, तया। द्रष्टुमिच्छामि भर्तारमिति पर्याकुलेक्षणा एवमुक्तो हनुमता रामो धर्मभृताम्बरः आगच्छत् सहसाध्यानमीषद्बाष्परिप्लुतः स दीर्घमभिनिश्वस्य जगतीमवलोकयन् उवाच मेघसङ्काशम् विभीषणमुपस्थितम् दिव्याङ्गरागाम् वैदेहीम् दिव्याभरणभूषिताम् इह सीताम् शिरस्नातामुपस्थापयमाचिरम् उपस्थापयमाचिरं। रामेण त्वरमाणो विभीषणः प्रविश्यान्तः पुरम् सीताम् स्त्रीभिः स्वाभिरचोदयत् ततः सीताम् महाभागाम् विभीषणः मूर्ध्न बद्धाजलिश्रीमा राक्षस दिव्यांग वैदे दिव्याभूषिता यान आरोह भद्रम ते भर्ता द्रष्टुम्छति मुक्ता वैदे प्रत्युवाच विभीषण अस्ना द्रष्टुा भर्ता रक्षसेरा तस्यास्तद्वचनम् श्रुत्वा प्रत्युवाच विभीषणः यथा ह रामो भर्ता ते तत्तथा कर्तुमर्हसि तस्य तद्वचनम् श्रुत्वा मैथिलीपतिदेवता भर्तृभक्त्या तथेति प्रत्यभाषत ततः सीताम् शिरस्नाताम् संयुक्ताम् प्रतिकर्मणा महार्हाभरणोपेताम् महार्हाम्बरधारिणी आरोप्य शिबिकाम् दीप्ताम् परार्ध्याम् वरसंवृताम् रक्षोभिर्बहुभिर्गुक्तामाजहारविभीषणः स्वभिगम्य महात्मानम् ज्ञात्वापि ध्यानमास्थितम् प्रणतश्च प्रहृष्टश्च प्राप्ताम् सीतान्यवेदयत् तामागतामुपश्रुत्य रक्षो गृहचिरोषिताम् रोषम् हर्षम् च दैन्यम् च राघवः प्रापशत्रुः ततो यानगताम् सीताम् सविमर्शम् विचारयन् विभीषणमिदम् वाक्यमहुष्टो राघवोऽब्रवीत् राक्षसाधिपते सौम्य नित्यम् मद्विजये रतः वैदेही सन्निकर्षम् मे क्षिप्रम् समभिगच्छतु तस्य तद्वचनम् श्रुत्वा राघवस्य विभीषणः ूर्णमुत्सारणम् तत्र कारयामास धर्मवित् कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः उत्सारयन्तस्तान् योधान् समन्तात्परिचक्रमुः वृक्षाणाम् वानराणाम् च राक्षसानाम् च सर्वशः तेषामुत्सार्यमाणानाम् निःस्वनः सु महान् अभूत् वायुनोद्धूयमानस्य सागरस्यैव निःस्वनः उत्सार्यमाणाम् स्ताम् दृष्ट्वा समन्ताज्जातसम्भ्रमान् दाक्षिण्यात् तदमर्शाच्च वारयामास राघवः संरम्भाच्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव विभीषणम् महाप्राज्ञम् सोपालम्भमिदम् वचः किमर्थम् मामनादृत्य क्लिश्यतेयम् त्वया जनः निवर्तयैनमुद्वेगम् जनोऽयम् स्वजनो मम न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया नेदृशाराजसत्कारा स्त्रियाः व्यसनेषु न कृच्छ्रेषु न विवाहे वा दर्शनम् दूष्यते स्त्रियाः सैषा चैव कृच्छ्रेण च समन्विता दर्शनेनास्ति दोषोऽ मत्समीपे विशेषतः विसृज्य शिबिकाम् तस्मात् समीपे मम वैदेहीम् पश्यन्ते वनौकसः एवमुक्तस्तु रामेण सविमर्शो विभीषणः रामस्योपानयत्सीताम् सन्निकर्षम् विनीतवत् ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः निशम्यवाख्यम् रामस्य बभूवुर्व्यथिताभृशम् कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः अप्रीतमिव सीतायाम् तर्कयन्ति स्मराघवम् लज्जया त्वबलीयन्ती स्वेषु गात्रेषु मैथिली विभीषणेनानुगता भर्तारं साभ्यवर्तता विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता उदैक्षत मुखम् भर्तुः सौम्यम् सौम्यतरानना अथ समपनुदन् मनः क्लमम् सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य मदनमुदित पूर्णचन्द्रकान्तम् विमलशशाङ्क निभानना तदासीत् इत्यादे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे चतुर्दशाधिकशततमः सर्गः